गणेशपुराणम् उपासनाखण्डम् अध्ययं नयन् सूत उवाच तदो भृगुः क्षणं ध्यात्वा पुनस्तं प्राहभूपतिम् अत्यन्तविह्वलो दुःखं वीक्ष्य तत्पूर्वकर्मजं भृगुरुवाच क्व पापनिकरास्ते दुःख क्वो पाया कथिता मया तथाप्येवं ब्रवीमि त्वामुपायमकनाशनम् गणेशस्य पुराणम् त्वं श्रोष्यसे यदि सत्वरः तदैव मोक्ष्यसे दुःखसागरान्नात्र संशयः इत्युक्त्वा तं गणेशस्य नामाष्टशतमुत्तमं जप्त्वा जलं मन्द्रयित्वा शिषे च नृपतिं तदा सिक्तमात्रे जले तन्नासारं ध्रदो लकुहू। कृष्णास्य पापतद्भूमौ ववृद्धे तत्क्षणादसौ सप्ततालप्रमाणो भूद्व्यादितास्यो भयङ्करः करालजिह्वो रक्ताक्षो जडाधरः मुखा दुरुवमग्नाग्निं क्षणाच्च पूयशोणिते नेत्राणामन्धतां कुर्वन्नन्धकार इवापरः आलोक्य दुद्रुवु सर्वे तदाश्रमनिवासिनः दंष्ट्रारावैर्दशदिशः पुरयन्तं तमद्भुतम् अपृच्छत्तं द्विजवरस्तत्समक्षं तु पूरुषं विद्वानपीदि कोऽसि त्वं नामदे किं वदस्व मे तं दु परिपृष्ठो द्विजेन सह प्राणिमात्रशरीरस्थो नाम्नाहं पापपूरुषः त्वन्मन्द्रजलपात्रेण निःसृतो राजदेहदः क्षुधातुरो भक्ष्यमीहे देहि मह्यं न चेतदा भक्षयिष्ये मुने लोकान् सोमकान्तं तवाग्रदः वदमेव सदिं मिदो निःसारितस्य च ततस्तु बहिरभ्येत्यतमुवाच मुनिः पुनः अस्मिन् रसतले सरले विरसे वसकोटरे गलितानि जपत्राणि भक्षय स्वममाज्ञया नो चेत् त्वां भस्मसात्कुर्यां नानृद मे वचोधम सुत उवाच इति तन्मुवाक्यान्दे शुष्कं स वृक्षमस्पृशद भस्मसादवद्वृक्षोद्विजास्तत्स्पर्शमात्रदः मुने सन्दर्शनाद्भीद तस्मिन् भस्मन्यलीयते तस्मिन् विलिने स मुनिक् सोमकान्तम् पुनर्जगौ भृगुरुवाच पुराणश्रवणाद्यत्ते जातम् पुण्यम् नृपोत्तम अयम् यावच्यूतरुरत्र चोतिष्ठते पुनः तापसम्पाद यस्मिंस्तद्भस्मन्येव दिने दिने विवृद्धेस्मिंस्तरौ राजन्निष्पापस्त्वं भविष्यसि राजोवाच गणेशस्य पुराणं यन्न न च वैश्रुतं कुत्र तल्लभ्यते ब्रह्मन् व्याकर्ता तस्य वा मुने मुनिरुवाच ब्रह्मणा कथितं पूर्वं वेदव्यासाय धीमते व्यासाच्च विदिदम् मह्यं पुराणं पापनाशनम् अहं च दे प्रवक्ष्यामि तीर्थे स्नानं समाचर श्रोष्ये पुराणमिति च सङ्कल्पं कुरु सूद सुद उवाच भृगुणानोदिदश्नात्वा भृगुतीर्थेदिविश्रुते सोमः कान्दो मुदा युक्तस्ततः सङ्कल्पमाचरत गणेशस्य पुराणं यत्तच्छ्रोष्येद्यप्रभृत्यहं सङ्कल्पमात्रे तु कृते बभौ निरामयः भृगुप्रसादान्निरक्तकृमिक्षदविसर्जितः गृहीत्वादं भृगुरगाद्विस्मितं कर्षितं नृपम् उपविश्यासने स्वीये दापयत्तस्य चासनम् उपविष्टो बभाषे तं दिव्यकान्तिर्नृपोत्तमः राजोवाच भवत्प्रसादात् सकला गरिष्ठा सङ्कल्पमात्रेण गदा व्यथा मे आश्चर्यभूतं सकलं वदस्व पुराणमेतद्विरदानदस्य भृगुरुवाच शृणुष्वहितो तत्पुराणं वदाम्यहम् अनन्तपुण्यनिचयैर्यस्य श्रवणगोचरा मधिरुत्पद्यते पुंसां नान्यथा पापकारिणां यस्या कर्णनमात्रेण सप्तजन्मार्जितान्यपि लघु शुष्कार्द्रस्थूलानि पापानि च महान्त्यपि तत्क्षणाद्विलयं यान्ति गणेशस्य प्रसाददः अव्ययस्याप्रमेयस्य निर्गुणस्य निराकृतेः मनो वा गनिरूप्यस्य केवलानन्दपिणः यस्य स्वरूपं न विदुर्ब्रह्मेशानादयसुराः सहस्रवदनो यस्य महिमानं न चक्षमः यावद्विशेषविदपि प्रवक्तुं राजसत्तम मया यथाश्रुतं पूर्वं तत्पुराणं सुपुण्यदम् अतीन्द्रियज्ञानवतो व्यासामि दतेजसः यज्ञविध्वंस चोकार्तो दक्षः शुश्रावमुद्गलाद यस्य भक्तिर्दृढा राजन् गणेशे सर्वसिद्धिदे स एतृणुयान्नित्यं न वाच्यं यदि सर्वेपि कुर्वीरन् विघ्नराजस्य सेवनं क्व तदा विघ्ननिचया विचरेयुर्यथा सुखं दुःखान्यनु भवेयुः के नानाविरहजान्युत चकारे पुराव्यासो भूद भव्यभविष्यविद वेदार्थज्ञानरहितान् वेदाध्ययनवर्जितान् वर्णाश्रमाचारशून्यान् जातिशङ्करकारिणः कलविलोक्यदुजनान् कुडिलान् पापकारिणः अष्टादशपुराणानि कृतवान् धर्मगुप्तये तावन्त्युपपुराणानि ततोर्थान् बुबुधुर्जनाः तद एव गणेशस्य जानंद्यमीजना श्रीगणेशणे उपासनाखंडे राजोपदेशकथनम्या